ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं ट्वेल् ललिताप्रादुर्भावं रुद्रकोपानलाज्जादो यदो भण्डो महाबलः तस्माद्द्रौद्रस्वभावो हि दानवश्चाभवत्तदः अधा गच्छन्महाते जः शुक्रो दैत्यपुरोहितः समायाताश्च शदशो दैतेयासुमहाबलाः अधाहूयमयं भण्डो दैत्यवंश्यादिशिल्पिनं नियुक्तो भृगुपुत्रेण निजगादार्थवध्वजः यत्र स्थित्वाद् दैत्येन्द्रैस्त्रैलोक्यं शासितं पुरा तद्गत्वा शोणितपुरं कुरुष्वत्वं यथा पुरं तच्छ्रुत्वा वचनं शिल्पी स पुरं महद चक्रे मरपुरप्रख्यं मनःसैवेक्षणेन तु अधाभिषिक्तः शुक्रेण दै देय्ष महाबल सुषे परया लक्ष्म तेजसा चमंता हिण्याय दिरीड ब्रह्मणा पुरा सजीविनानाश्य दैतेन्द्रैरभूष दध भृगसुत्त्सो बालाकसनिभं चाम चामरे संकाश्य सजीवे ब्रह्म नरोगो न चुखा संदिषेव तस्यादपत्रं प्रदौ ब्रह्मण्व पुराकृतं ये छाया निषण्स बध्यन्ते नास्त्रकोडिभिः धनुश्च विजयन्नामशङ्खञ्च रिपुकादिनम् अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान् तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभं तदसिंहासनासीनः सर्वाभरणभूषितः बभूवातित तेजस्वी रत्नमुत्तेजितं यथा बभूवुरथदयितेयास्तयाष्ठौदु महाबलाः इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः उग्रकर्मोग्रधन्वाच सुमोहिनी कुमुदिनी चित्राङ्गी सुन्दरी तथा चदस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः देवा सर्वे सवासवाः स्यन्दनास्तु रगनागाः पादाताश्च सहस्रशः सं बभूवुर्महाकाया महान्दो जिदकाशिनः बभूवुर्धानवास्सर्वे भृगुपुत्रमदानुगाः अर्चयन्तो महादेवमास्थिता शिवशासने बभूवुर्धानवास्तत्र पुत्रपौत्रधनान्विताः गृहे गृहे च यज्ञाश्च संबभूवुः समन्ततः ऋचो यजुंषि सामानि मी मांसान्यायकादयः प्रवर्तन्ते भूयः प्रदिगृहं तदा यथाश्रमेषु मुखेषु मुनीनां च तथा यज्ञेषु दैत्यानां बभुजोऽर्हव्यभोजिनः एवं कृतवदोऽप्यस्य भण्डस्य जितकाशिनः षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्थवद् वर्धमानमधो दैत्यं तपसा च ीयमानबलं चेन्द्रं सम्प्रेक्ष्य कमलापतिः ससर्जसहसा काञ्चिन्मायां लोकविमोहिनीं तामुवाच तदो देवदेवो जनार्दनः त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा विचरस्व कामं त्वाम् न ज्ञास्यति कश्चन त्वं दुषीक्रमिदो गत्वा भण्डं दयितेयनायकं मोहयित्वा चिरेणैव विषयानुपभोक्ष्यसे एवं लब्ध्वा वरं माया तं व्रणं यजनार्दनं सहायार्थं तु काश्चन तया सम्प्रार्थितो भूयः प्रशयामास काश्चन ताभिर्विश्वाजिमुख्याभिस्सहिता सा मृगेक्षणा प्रययौ मानसस्याग्र्यं तडमुज्ज्वलभूरुहम् यत्र क्रीडति दैत्येन्द्रो निज नारीभिरन्वितः तत्र सा मृगशावाक्षी मूले चम्पकशाखिनः निवासमकरोद्रम्यं गायन्ती मधुरस्वरम् अधागदस्तु दैत्येन्द्रो बलिभिर्भन्द्रिभिर्वृतः श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम् तां दृष्ट्वा सर्वाङ्गीं विद्युल्लेखामिवापरां मायामये महागर्ते पदिदो मदनाभिद्धे अथास्य मन्त्रिणो भूवन् हृदये स्मरता तेन दैतेयनादेन चिरं सम्प्रर्थिता तैश्च संप्रथितास्ताश्च प्रदि शुश्रूवुरञ्जसा यास्त्वलभ्यामहायज्ञैरश्वमेधादिकैरपि ता लब्ध्वा मोहिनीमुख्या निर्वृदिं परमां ययुः विशस्मरुस्तदा देवमुमापदिम् खुस्ते तदा यत्नक्रियाश्चान्या शुभावहा अवमानहदश्चासीत् तेषामपि पुरोहितः मुहूर्तमिव तेषां तु यया वब्दायुधं तदा मोहितेष्व ददैत्येषु सर्वे देवास्सवास्वाः विमुक्तोपद्रवा ब्रह्मन्नामोदम् परमं ययुः कदाचिदध देवेन्द्रं वीक्ष्य सिंहासने स्थितं सर्वदेवैः परिवृतं नारदो मुनिराययौ प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकं कृताञ्जलिपुडो भूत्वा देवेशो वाक्यमब्रवीत् भगवन् सर्वधर्मज्ञ परापरविदाम्बर तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि भविष्यच्छोभनाकारं तवागमनकारणं त्वद्वाक्यामृतमाकर्ण्यश्रवणानन्दनिर्भरम् अशेषदुःखान्युत्तीर्य कृतार्थस्यां मुनीश्वर नारद उवाज अधः सम्मोहितो भण्डो दैत्येन्द्रो विष्णुमायया तया विमुक्तो लोकां स्त्रीन्दहेदाग्निरिवापरः अधिकस्तव ते ज्योभिरस्त्रैर्मायाबलेन च तस्य ते चोपहारस्तु कर्तव्योदि तु विनाराधनतो देव्याः पराशक्तेस्तु वा स वा अशक्योऽन्येन तपसा कल्पको डिशतैरपि पुरोदयदशत्रोराराधयद बालिशाह आराधिता भगवती सा वश्रेयो विधास्यति बोधितक्रो देंवगेशर तुनि पूजयासद सन्व तपसे कृतसन्नाहो यय हैमद्र भगीरधी सर्वर्थ कुसुमोज्वले पराशक्तिरम पूजा चक्रे सुरैः समम् इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदं ब्रह्मात्मजोपदिष्ठेन कुर्वतां विधिना परां देव्यास्तु महदीं पूजां जपध्यानरदात्मनाम् उग्रे तपसि संस्थानामन्यार्पितचेतसाम् दशवर्षसहस्राणि दशाहानि च संयुः मोहितान्नथ तान् दृष्ट्वा भृगुपुत्रो महामतिः भण्डासुरं समभ्येत्य निजगादपुरोहितः। पुरोहितः त्वामेवाश्रित्य राजेन्द्र सदा दानवसतमाः चरन्दीश्च विहारिणः जातिमात्रं हि भवदो हन्ति सर्वान् सदा हरिः तेनैव निर्मिता माया यया स भवान् भवन्तं मोहिदं दृष्ट्वा रन्ध्रान्वेषणतत्परः भवतां विजयार्थाय करोतीन्द्रो महत्तपः यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेद् इमां मायामयीं त्यक्त्वा मन्त्रिभिस्सहितो भवान् गत्वा हैमवदं शैलं परेषां विघ्नमाचर येवमुक्तस्तु गुरुणा हित्वा पर्यङ्गमुत्तमं मन्त्रिवृद्धानुबहूय यथा वृत्तान्तमाह सः तच्छ्रुत्वा नृपदिम् प्राहश्रुतवर्मा विमृश्य च षष्टिवर्षसहस्राणाम् राज्यं तव शिवार्पितम् तस्मादप्यधिगम्भीर गतमासीदनेकषः अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना काले दुभोगः कर्तव्यो दुःखस्य च सुखस्य वा अथः भीमकर्माख्यो नोपेक्ष्यो रिर्यथाबलं क्रिया विघ्ने विजयस्ते भविष्यदी तव युद्धे महाराज परार्थं बलहारिणी दत्ता विद्याशिवेनैव तस्मात् ते विजयः सदा अनुमेने च तद्वाक्यं भण्डोदनवनायकः निर्गत्य सहसेनाभिर्ययौ हैमवदं तडं तपो विघ्नकरान् दृष्ट्वा दानवाञ्जगदम्बिका अलङ्घ्यं मकरोदग्रे महाप्राकारमुज्ज्वलं तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः संक्रुद्धो दानवास्त्रेण बभञ्जादिबलेन तु पुनरेव तदग्रे भूदलङ्घ्यः सर्वदानवैहि न वायव्यास्त्रेण तं धीरो बभञ्च च ननाद च पौनःपुन्येन तद्भस्मप्राभूत्पुनरुपस्थितं ये तद् दृष्ट्वा तु ययौ तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलं पयाद्विव्यधिरे देव विमुक्तसकलक्रियाः तानुवाच ततश्चक्रो ता दैत्येन्द्रो यमिहा अशक्यसमरे योद्धुमस्माभिरखिलैरपि पलायितानामपि नो गतिरन्यान् कुत्रचित् कुण्डं योजनविस्तारं सम्यक् शोभनं दुशोभनम् महायागविधानेन प्रणिधाय उदाशनं यजामः परमां शाक्तिं महामासैर्वयं सुराः ब्रह्मपूजा भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् येवमुक्तास्तु ते सर्वे देवास्येन्द्रपुरोगमाः विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्यमन्द्रदः हुतेषु सर्वमांसेषु पादेषु च करेषु च होदु मिच्छत्सु देवेषु कलेवरमशेषतः प्रादुर्बभूव परमन्त्रेजः पुञ्जोह्यनुत्तमः तन्मध्य तन्मध्यदुमहादेवी। तन्मध्ये दुमहादेवीमुदयार्कसमप्रभां जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकां सौन्दर्यसारसीमां तामानन्दरससागराम् जपाकुसुमसङ्काशां दाडिमी कुसुमाम्बरां शर्वाभरणसंयुक्तां शृङ्गारैक रसालया कृपातरङ्गितापाङ्गनयनालोककौमुदीं पाशाङ्गुषेक्षुफोदण्ड पञ्जबाणलसत्करा ताम देवा सर्वे सवा सवाहा, तालोक्य भूयो भूयो मुर्मुदूय तया विलोकिता सद्यस्ते सर्वे विगतज्वरा सम्पूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः तुष्टुवुश्च महादेवीमम्बिकामखिलार्थदा यदि श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललिदोपख्या ललितादुर्भाो नामशोध्याय